अथ काली कवचम् ओम् शुक्लाम् वरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत्सर्वविघ्नोपशान्तये श्रीसदाशिव उवाच कथितम् परमम् ब्रह्म प्रकृत्तेस्तवनम् महत् आद्याया श्रीकालिकायाः कवचम् शृणुसाम्प्रतम् त्रैलोक्यविजयस्यास्य कवचस्य ऋषिः शिवः छन्दोऽनुष्ठु देवता आद्या काली मायाबीजम् जमिति रमाशक्तिरुदाहृता क्रीम् कीलकम् काम्यसिद्धौ विनियोगः प्रकीर्तितः ह्रीं माद्या मे शिरः पातु श्रीम् काली वदनम् मम हृदयम् क्रीम् पराशक्तिः पायात् कण्ठम् परात्परा नेत्रे पातु जगद्धात्री कर्णौ रक्षतु शङ्करी घ्राणम् पातु महामाया रसनाम् सर्वमङ्गला दंताक्ष कौम कपोल कमलाल ओष्ठा धरो हासिनी चिबुक चारुहासिनी कुलेशानी पा कृपायी द्वौ बाहु बाहुदारक्षे करौ कैवल्यदायिनी स्कन्धौ कपर्दिनि पातु पृष्ठम् त्रैलोक्यतारिणि पार्श्वे पायाद मे कटिम्मे कमठासना नाभौ पातु विशालाक्षि प्रजास्थानं प्रभावति ऊरु रक्षतु कल्याणी पादौ मे पातु पार्वती जयदुर्गावत प्राणान् सर्वाङ्गम् सर्वसिद्धिदा रक्षाहीनम् तु यत्स्थानम् वर्जितम् कवचेन च तत्सर्वम् मे सधारक्षे धारक्षेदाद्यकाली सनातनी इतिते ते देव्यं त्रैलोक्य त्रैलोक्यविजयाभिधम् कवच कालिव्या आद्यायाल पठेस्तुआद्यातमानसवा नोध्यासु प्रसीदती मन्द्रसिद्धिर्भवेदाशुकिङ्कराह क्षुद्रसिद्धयः अपुत्रो लभते पुत्रम् धनार्थे प्राप्नुयाद्धनम् विद्यार्थी लभते विद्याम् कामी कामान्वाप्नुयात् सहस्रावृत्तपाठेन वर्मणोऽस्य पुरस्क्रिया पुरच्चरणसम्पन्नम् यतोक्तफलदम् भवेत् चन्दनागरकस्तूरिकुङ्कुमैरक्तचन्दनैः भोजे ख्यगुटिकाम् स्वर्णर्थान् धारयेद्य शिखायाम् दक्षिणेर्बाहौ कण्ठे वा साधकटौ तस्याद्याकालिकावस्या वाञ्छितार्थम् प्रयच्छति न कुत्रापि भयम् तस्य सर्वत्र विजयी कविः अरोगे चिरजीवी बलवान् धारणक्षमः सर्वविद्यासु निपुणः सर्वशास्त्रार्थतत्त्ववित् वशे तस्य महीपान भोगमोक्षौ करस्थितौ कलिकल्मषयुक्तानाम् निःश्रेयसकरम् परम् न कुत्रापि तस्य सर्वत्र विजयी कविः अरोगी चिरजीवी स्यात् बलवान् धारणक्षमः सर्वविद्यासु निपुणः सर्वशास्त्रार्थतत्त्ववित् वशे तस्य मही पल भोगमोक्षौ करस्थितौ कलिकल्मषयुक् निः श्रेयसकरम् परम्